श्रीगुरुभ्यो नमः हरिः ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॐ भुः ॐ भुवः ओगं सुवः ॐ मह जनः ॐ तपः ॐगं सत्यं ॐ तस्य वितर्वरे एण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् ॐ मापूज्योतिरसोऽमृतं ब्रह्मभुभुवस्वरो ममोपातसमस्तदुरितक्षद्वार श्रीपरमेश्वरप्रीत्यर्थम् आदित्यादिनो ग्रहदेवता प्रसादसिद्ध्यर्थम् आदित्यादि नवग्रह नमस्कारान् करिष्ये ओम आसत्येन रजसा वर्तमानो हिरण्ययेन सवितारथेन देवो याति भुवना विपश्यन् अग्निं धूतं विळिमहे होतारं विश्ववेदसं अस्य यज्ञस्य शुक्रतुमम् येषामीषे पशुपतिः पशूनाम् चतुष्पदामुत चद्भिपदा आम निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषायजमानस्य सन्तो ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्यायश्व समेतु ते विश्वतः सोमभिष्णयं भवायस्य सङ्गधे अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेसजा अब्ंश्च विश्वन् विश्वशम्भुवमापश्च विश्वभेसजे गौरिमिमायसलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी नवपदि नवपदी बभूवूषी सहस्रा अक्षरा ओम व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मृधा दिवः ककुत्पतिः पृथिव्या अयम् आपागन् रेतागंसि जिन्मति शोना पृथिवी भवान इक्षरा निवेसरी यच्छानः सप्रथा आह क्षेत्रस्य पतिना वयगम्भिते नैव जयामसि गामस्वं पोषयिस्मास नो मृगाति दृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुध्य स्वाग्ने प्रतिजागृह्ये न मिष्टा पुरते स हंसिजेथामयञ्च पुनः कृणग्दस्त्वा पितरं युवानमन्वा ता वंसि त्वयीतन्तुमेतम् इदं विष्णुविचक्रमे त्रेधा निधे पदं समूढमस्य पाकं सुरे विष्णोरराटमसि विष्णो ओ पृष्टमसि विष्णो धस्त्रे एष्ठो विष्णो शिरसि विष्णो ओ धुवमसि वैष्णवमसि विष्णवे त्वाम् ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्ह्यो अह अर्हा आ दद्यो मद्विभाति क्रतो मज्जनेषु यद्यदयच्च वसर्त प्रजात तदस्मासु द्रविणन्धे हि चित्रम् इह पाहि सोम यथा सार्या ते अपि वस्तु तस्य तव प्रणीते तव शूरशर्मन्ना विभाषन्ति कवयस्सु यज्ञाः ब्रह्मयज्ञानां प्रथमं पुरस्ताद्विसीमतः सुरुचो द्वेन आवह सप्न्या उपमा अस्य व्यष्ठासतश्च योलि वसतश्च विवह ॐ आधिदेवता प्रत्यधिदेवतासहिताय बृहस्पतये नमः ॐ प्रव शुक्राय भालवे मरध्वम् अव्यंमतिचाग्नये सपूतं यो दैव्यानि मानुषाजं जनुगंसि अन्तविश्वानि वे विद्मना जिगाति इन्द्राणीमाशुनारिषुषुपत्नीं महं मप् न यस्यापरञ्चन जरसामरते पतिः इन्द्रं वो विश्वतस्परि हवामहे जने अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ सन्नो देवीरभिष्टे आपो भवन्तु पीतये एोरभिश्रमन्तु नः प्रजापतिना त्वदेतान्यन्नो विश्वाजातानि परिता बभूव यत्तामास्ते जुहुमस्तन्नो अस्तु वयं यं इमं यमप्रस्तरमाहिशीदा गिरोऽभि पित्रभिसंविदानः आत्त्वा मन्त्रा आह कविशस्ता वहन्तेना राजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्च राय ॐ कया नश्चित्र आभो वधूते सदा वृधः सखा आं कया पुनः पितरं प्रयत्सुवः यत् ते देवी नृतिरापबन्धमदामग्रीवास्वविचर्यम् इदन्ते तद्वशाम्यायुशोला मध्यादथा विजीवः पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ओ केतो कृण्वन्न केतवे पशो मर्या अपि शसे ए समुषद्भिरजा यथाः ब्रह्मादेवाना आं पदवीकवीनां रुचिर्विप्राणां महिषो मृगाणा आं शेरो गृद्धा नागस्वदिते वनानानागं सोमः पवित्रमत्यतिरेवन् चित्रचेत्रं चित्रयन्तमस्ते चित्रक्षतचित्रतमं वयोधां चन्द्रं वयी पुरवीरम् बिहन्तं चन्द्रचन्द्राविर्घृणते युवस्य ॐ अधिदेवता प्रत्यधिदेवता शैतेभ्य केतुभ्यो नमः नवग्रह देवताभ्यो नभो नमः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु